मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं टु भस्मासुरवधम् श्रीगणेशाय नमः मुद्गल उवाच असि तस्य वच श्रुत्वा नैध्रुवो विस्मितो भवद प्रणम्यतं महाभागं जगाद विनयान्वितः नैध्रुव उवाच स्वामिन्वदमः महायोगं योगदं साधनं परं तदर्थं कस्य भक्तिर्मे कर्तव्या योगिसत्तम असित उवाच शृणुपुत्र प्रवक्ष्यामि लम्बोदरकथानकम् तेन सर्वं महायोगं लभसे नात्र संशयः ये कदा तथा पुत्रवत्सरस्ते पिता पुरा तपःसा शुद्धभावेन निर्मलौ ततो योगस्य प्राप्त्यर्थं यत्नवन्तौ सुसंस्थितौ अन्तर्ज्ञानसमयुक्तौ जडोन्मत्तादिसुप्रियौ एकाग्रं साधयित्वा वै निरोधे संस्थितौ तथा सहजावस्थया युक्तौ सुखयुक्तौ भवावहे तत्रैव मोहहीनत्वं दृष्ट्वा परम परमविस्मितौ शान्दिहीनौ तदो जादौ गदौ च ब्रह्मणोन्दिकं तत्र स्पर्धा समायुक्तौ विश्वामित्रवसिष्ठकौ समायादौ प्रणम्यैनं प्रतिष्ठन्तौ मदान्विधौ क्रोधयुक्तौ विधातारं प्रपृच्छन्तौ विशेषदः कोऽधि को वदधाधस्त्वं तपसा योगसेवया तच्छ्रुत्वात्तौ जगादाधब्रह्मा सर्वपि दामहः येन क्रोधो जिदो नूनं तं जानाम्यधिकं मुनिं युवां क्रोधयुधौ पूर्णौ तत्र किं विद्यते सर्वत्र शान्धिदं योगं तं यो जयदि सोऽधिकः तदप्रणम्य विश्वेश्यं वदत स्म तपोधनौ विनये न समायुक्तौ तपस्पर्धा परायणौ वसिष्ठविश्वामित्रावूचदुः कीदृशोऽयं प्रजानाथ क्रोधः सर्वभयङ्करः कुत्र तिष्ठति देवेश किं रूप स्वभाववान् जयन्तिकेन योगेन तं दुष्टं योगिनः प्रभो सर्वं वद विभो तस्य तं जेष्यावो न संशयः ब्रह्मोवाच त्रा कथयिष्यामीतिहासं सर्वसिद्धितं तेन क्रोधं च कामं चाभिमानं जयति प्रभुः शकुनेरभवत्पुत्रशुक्रम् भस्मा सुरोत्तपत उपसङ्गम्य सङ्गृह्य विद्यां पञ्जाक्षरीं पुरा दीक्षां गृह्य महादेवमुपासनविधानदः साधयाम स्वभावेन भस्मोद्धूलितविग्रहः सहस्रे प्रकटेष्वेव प्रभुर्वर्षेषु शङ्करः तं वरदानार्थं वरदानार्थम् सर्वदेवसमावृतः आगदं शङ्करम् दृष्ट्वा उद्धाय प्रणिपत्यतम् पूजयित्वा प्रथुष्ठावस्तोत्राय जबाद जगादशङ्करो दैत्यं सन्धुष्टो भक्तमुत्तमं वरं वरय दास्येऽहं भक्र्यादे तपसा सुर भस्मासुर उवाच यस्य शम्भो महेशानमस्तकेऽहम् धरामि हस्तं सद्यो मृदो भूत्वा तदो भवतु भस्मसाद अन्येभ्यः सर्वभूतेभ्यो न भयं कदाचन भवेत् सर्वाधिका शक्तिस्तथा कुरु महेश्वर तच्छ्रुत्वा विस्मितशम्भुस्थं जगाद महासुरं। सर्वं सदे महादैत्य मदाज्ञया अस्तस्ते यस्य शिरसि दक्षिणः सम्पतिष्यति स वै भस्ममयः सद्यो भविष्यदिनसंशयः तदशिवो ययौस्थानम् कैलासम् गणसंवृतः दैत्यस्तत्रैव तिष्ठन् विचारमकरोत् स्वयम् अहो शिवस्य वामाङ्गे संस्थिता जगदम्बिका रूपलावण्यसंयुक्ता रत्नभूतादिसुन्दरी एतादृशी मया कुत्र दृष्टा नैव सुरूपिणी नग्नः शम्भुलयं तस्या योग्यो नैव भवेद्रतौ अतोहं यत्नमास्थाय वरदानप्रभावदः शम्भुं भस्ममयं कृत्वा ग्रहीष्यामि च पार्वतीम् एवं विचार्य दैत्येन्द्र आययौ शङ्करान्तिकं कैलासे गिरिवर्ये स वेगमास्ताय दारुणः दक्षिणं हस्तमूर्ध्वं स कृत्वा शङ्करसन्निधौ आयय्यौ विलोक्यैव पपाल गिरिजापदिर्नमस्कारादिचिह्नैश्च हीनं दृष्ट्वा स्वसन्निधौ असुरं भावसंयुक्तं भयभेदः समन्तदः तदसोपि महादैत्यक्रोधयुक्तो विशेषतः धावयित्वा तमनुवैग्रहीतुं प्रोद्यतोऽभवद ततो दिवेगमास्थाय शिवो भीत्या पलायत अथावत्पृष्ठमास्थाय तं भस्मासुर एव पलन्दं शङ्करं तत्र ददर्श कमलापदिः सस्मारगणपं चित्ते किं भविष्यदि विह्वलः सोऽपि तुष्टावच्चाधर्वशिरः सा विघ्ननायकं विष्णु परमशोकार्तो महादेवस्य कारणात् शिवश्च भयसंयुक्तो गणेशं स्वयमस्तविद महासङ्गणनाशार्धं शरणागदवत्सलं शिव उवाच किं पश्यसे नाथ विनायकस्त्वं दैत्येन सर्वत्रच च मां सुत्रासिदं दक्षं भुजं कगं गणेशकृत्वा स मां भस्ममयं करिष्यति नानाजनैः सेविदपादपद्म किं विस्मृतो मां भयभङ्गकारिन् चिन्तामणे चित्तनिवासकत्वं संरक्ष विघ्नेश दयाखनात्र त्वदन्यदेवं शरणं गजास्य प्रभुं समर्थं न चयामिनाथ न कोऽपि हेरम्बमहानुभावक्षमोहि माम् रक्षितुमीश्वर कः रम्भोदरामोकसुचिन्तनं ते स्वानन्दवासिंश्च महोदरस्य रक्षस्व मां मृत्युमुपागतं त्वं त्वत्पादनिष्ठं भयभञ्जनाशु किं सिद्धिबुद्धिप्रविहारकेण सक्रप्रजातोऽसि विनायकत्वं भक्तानुकंपीदि तवैव नाम वेदे कथं सङ्कथिदम् महात्मन् किं लक्षलाभप्रभवार्थमेवं संसकृतभावैरसि विस्मरंश्च मां रक्षनो चेन्निगमस्य देवव्यर्थं यशः सम्भविदा परात्मन् यथा दिनेशः समपालयुक्तप्रकाशदा तथाहि दे भक्तजनानपारान् क्षमोऽसि तान् रक्षितुमन्तरम् किम् किं योगरूपादिविलम्बनेन रक्षस्वभिदं मरणेषु संस्थं हे रम्बविघ्नेश विनायकाशु रक्षस्व रक्षस्व महेश पुत्र एवं स्तुवदि शम्भौ स विष्णोर्हृदि गजाननः प्रविश्य बुद्धिसन्दा बभूवे भक्तवत्सलः धृत्वा स्त्रीवेषकं विष्णोर्ययौतं भस्मकारकं महासुरो मुमोहासौ तां दृष्ट्वा मोहिनीं स्त्रियम् तां समागत्य पप्रच्छ दैत्येन्द्रो मोहसंयुतः कुत्र गच्छसि शुश्रोणि किन्ते कार्यमुपस्थितं वद मां तत्करिष्यामि त्वद्दासोऽहं न संशयः अहं सर्वेश्वरोऽत्रैव न स मे प्रविद्यते भज मां भावसंयुक्ता भजन्तं तेजदासकं त्वदधीनो भविष्यामि सदा वराङ्गणे मदं तस्य तद्वचनं श्रुत्वा स्मित्वा सा तं जगादः अहं मोहप्रदानारी मोहिन्यत्र समागता मदाज्ञया दैत्य यदि वर्तसे त्वं निरन्तरम् तदा दे गृहगा भूत्वा तिष्ठाम्यत्र न संशयः तथेति दैत्यराजस्ताम् जगादः साब्रवीत्पुनः नृत्यम् कुरु मदग्रे त्वं यथा नृत्यामि वै अहं तथेदिप्रतिपाद्यैव कलान्विता तथा दैत्याधिपस्तत्र ननर्त काममोहितः तया दक्षिणहस्तश्चापि स्वके तथा सोऽपि चकारा विघ्नेशमायया भस्म सा दभवदैत्यो भस्मासुरश्च तत्क्षणाद तदः सा विस्मिता भूत्वा तुष्टावगणनायकम् ओं तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म महापुराणे पञ्चमे खण्डे लम्बोदरचरिते भस्मासुरवधो नाम द्वितीयोऽध्यायः ॐ